अथ द्वाविंशम् दशकम् अजामिळो नाम महीसुरः पुराचरन् विभो धर्म पथान् गृहाश्रमी गुरोर्गिरा काननमेत्य दृष्टवन् सुधृष्ट शीलाम् कुलटाम् मदाकुलम् स्वतः प्रशान्तोऽपि तदा हृताशयः स्वधर्ममुत्सृज्य तया समारमन अधर्मकारी दशमी भवन पुनर्दधौ भवन्नाम युते सुते रतिम् समृत्यु काले यम यन्भिया पुरामना त्वत् स्मृतिवासना बलात् जुहावनारायण नामकम् सुतम् दुराशयस्यापि चतुर्भुज पीतपटा मनोरमा अमुच सपाश्य विकर्षो भटन विमुंचतेुरधुर्बलादमी निवारतास्ते चवज्जनदा तदीय पापं निखि न्यवेदयु पापने कथं तो निष्कृते भो दंडनमस्ति पंडिता न निष्कृतिः किम् विदिता भवा दशामिति प्रभो त्वत्पुरुषा श्रुति विहिता व्रतादयः पुनन्ति पापम् नलुनन्ति लुनन्ति वासनम् अनन्त सेवा तु निकृन्तति द्वयीमिति प्रभो त्वत्पुरुषा बभाषिरे अनेन भो जन्म सहस्र कोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता नाम भयाकुलो हरेरिति प्रभो त्वत्पुरुषा बभाषिरे बुद्ध्यापि मुकुन्द कीर्तनम् दहत्यघौ वहिमास्य तादृशः यथाग्निरेधांसि यथौषधम् गदानिति प्रभो तत् पुरुषा बभाषिरे इतीरितैर्याम्यभटैरपासृते भवद्भटानाम् च गणेतिरोहिते भवत् भवत स्मृतिम् कञ्चन कालमाचरन् भवत्पदम् प्रापि भवद्भटैरसौ स्वकिङ्करा वेदन शङ्कितो यमस्त्वदङ्घ्रिभक्तेषु षदुच्चकैः स देववातालयनाथ पाहि दशकम्